श्रीमन श्रीम्मत आदिपर्वण आस्कर्वण सौपर्णे चतशो अध्याय गरु उच सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरन्दर बलं तु मम जानीहि महच्चा च कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवं गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया न ह्यात्मस्तव संयुक्तं वक्तव्यमनिमित्ततः वहे पक्षेण वैशक्र त्वामप्यत्रावलम्बिनं सर्वान् वापि लोकान् संस्थाणुजङ्गमान् वहेयमपरिश्रान्तो ीदम् मे महद्बलम् सौतिरुवाच इत्युक्तवचनं वीरं किरीटी श्रीमतां वरह आह शौनक देवेन्द्रः सर्वलोकहितः प्रभुः एवमेव यथात्थत्वम् सर्वम् सम्भाव्यते त्वयि सङ्गृह्यतामिदानीम् सख्यमत्यन्तमुत्तमं न कार्यं यदि सोमेन मम सोमः प्रदीयताम् अस्मांस्ते प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् गरुडौ वाच किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया नदास्यामि दास्यामि समादातुं सोमं कस्मैचिदप्यहं यत्रेमन्तु सहस्राक्ष दीक्षिपेऽयमहं स्वयं त्वमादाय ततस्पूर्णं हरेथा स्त्रिदिवेश्वर शक्रौ <coughs> वाकेनानेन ना तुष्टोऽहम् यत्त्वयोक्तमिहाण्ड च यमिच्छसि वरम् मत्तस्तम् गृहाण खगोतम सौ तिरुवाच इत्युक्तः प्रत्युवाचेदम् कद्रूपुत्राननुस्मरम् स्मृत्वा चैवोपधिकृतम् मातुर्दास्य निमित्ततः ईशोऽहमपि सर्वस्य करिष्यामि तु तेर्थिताम् भवेयुर्भुजगाश्चक्र मम भक्ष्या महाबलाः तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः देवदेवं महात्मानं योगिनामीश्वरं हरिं स चार्थं यथोक्तं गरुडेन वै इदं भूयो वचः प्राह भगवान् स्त्रिदशेश्वरः हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्यतम् आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् अथ सर्पानुवाचेदं सर्वान् परमहृष्टवत् इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः स्नातामङ्गलसंयुक्तास्ततः प्राश्नीतपन्न तद्वचस्तदा अदासीचैव मातेयमद्य प्रभृतिचास्तु मे यथोक्तम् भवतामेतत् वचो मे प्रतिपादितम् ततस्नातम् गताः सर्पाः प्रत्युक्त्वा तथेत्युत शक्रोऽप्यमृतमाक्षिप्य जगामतिदिवम् पुनः अथागतास्तमुद्देशम् सर्पाः सोमार्थिनस्तदा स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः यत्रैतदमृतम् चापि स्थापितम् सोमस्थानमिदम् चेति दर्भांस्ते लिलिहुस्तदा ततोद्भिधा कृता जिह्वाः सर्पाणाम् तेन कर्मणा अभवंश्चामृत स्पर्शाद् दर्भास्तेऽथपवित्रिणः एवं तदमृतम् तेन हृतमा हृतमेव च सर्पा, सर्पा गरुडेन महात्मना ततसुपर्णः सुपर्णः परमप्रहर्षवान् विहृत्यमात्रा सह तत्र कानने भुजङ्गभक्षः परमार्चितः खगैः अहीनकीर्तिर्विनतामनन्दयत् इमां कथां यः शृणुयान्नरः सदा पठेतवाद्विजगण असंशयं त्रिदिवमियात् स महात्मनः पतगपतेः प्रकीर्तनात् इति श्रीमन्महाभारते आदिपर्वणि आस्तीकपर्वणि सौपर्णे चतुस्त्रिंशोऽध्यायः